श्रीमद्भागवत् महापुराणं दशंस्कन्धषष्टितमोऽध्यायः श्रीभगवानुवाच साध्वे तत्स्रोतु कामयेस्तम् राजपुत्रे प्रलम्भिता मयोदितं यदन्वात्थ सर्वं तत्सत्यमेव हि यान् यान्कामयसे कामान्मय्यकामाय भामिनि सन्ति हे कान्तभक्तायां तव कल्याणि नित्यताम् थान्द। थान्द। उपलब्धं पतिप्रेम पातिव्रत्यं च तेन घे यद्वाक्े चाल्यमानायानाधिम्यकर्षिता ये मां भजन्ति तां पत्ये तपसा व्रतचर्ययां मम माययाम् मां प्राप्य मालिन्योपवर्गसम्पदं वाञ्छन्ति ये सम्पद तत्पतिम् ते मन्दभाग्या निर्येऽपिते ये नृणाम् मात्रात्मकत्वानिर्यशुसङ्गमः दृष्टा गृहे स्वर्य सखिन्मयि त्वया कृतानुवृत्तिर्भव मोचनी खलैः सुदुष्कराशौ सुतरां दुराशिषो यशुम्भराजान् कृतिञ्जिस्रियाः न त्वादशीं प्रणयिनिम् गृहिणीम् गृहेषु पश्यामि मानि यया स्वविवाहकाले प्राप्तान्निपान्नवगणय्यरहो हरो मे प्रस्थापितो द्विजौपसृतसत्कथस्य धातुर्विरूपकरणम् यदि निर्जितस्य प्रोद्वाहपर्वणि च तद्वधमम् क्षगुष्याम दुःखम् समुद्धं समम् दुःखम् समुद्धमसहय मदयोगभीत्या नैवाब्रवी किमपि तेन वयं जितास्ते दूतस्त्वयात्मलभनेषु विविक्तमन्त्रः प्रस्थापितो मयि चिरायति शून्यमेतन् मत्वाजिहासेदमङ्गमनन्ययोग्यं तिष्ठेत तत्त्वयि वयं प्रतिनन्दयामः शिशुकुवाच एवं सों स्वरतो रमे आरेमे नरलोकं विलम्बनं यथान्यासामपि विपुर्गृहेषु गृहवानिव आस्तितो गृहि मे धियान् धर्माल्लोकगुरुहरिः श्रे श्रीमद्भागुते महापुराणे पारहुंसां शयितायां दसंस्कन्धे उत्रादे कृष्णरुक्मिणीसंवादोनां षष्ठीतमोऽध्यायः